त्रयोविंशत्यधिकशततमः सर्गः अनुज्ञातम् तु रामेण तद्विमानमनुत्तमम् हंसयुक्तम् महानादमुत्पपातविहायसम् पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः अब्रवीन् मैथिलीम् सीताम् रामः शशिनिभाननाम् कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् लङ्कामीक्षस्व वैदेहि निर्मिताम् विश्वकर्मणा एतदायोधनम् पश्यमाम् स शोणितकर्दमम् हरीणाम् राक्षसानाम् च सीते विशसनम् महत् एषदत्तव रश्येते प्रमाथी राक्षसेश्वरः तव हेतोर्विशालाक्षि निहतो रावणो धूम्राक्षश्चात्र निहतो वानरेण हनूमता विद्युन्मालीहतश्चात्र सुषेणेन महात्मना लक्ष्मणेनेन्द्रजिच्चात्र रामनिर्निहतो रणे अङ्गदेनात्र निहतो विकटो नाम राक्षसः विरूपाक्षश्च दुष्प्रेक्षो महापार्श्वमहोदरौ अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः त्रिशिराश्चातिकायश्च देवान्तक नरान्तकौ युद्धोन्मत्तश्च मत्तश्च राक्षसप्रवराबुभौ निकुम्भश्चैव कुम्भश्च कुम्भकर्णात्मजौ बली वज्रदंष्टश्च दंष्ट्रश्च बहवो राक्षसाहताः मकराक्षश्च दुर्धर्षो मया युधि निपातितः अकम्पनश्च निहतः शोणिताक्षश्च वीर्यवान् ूपाक्षश्च प्रजङ्घश्च निहतौ तु महाहवे विद्युज्जिह्वोऽत्र निहतो राक्षसो भीमदर्शनः यज्ञशत्रुश्च निहतः सुप्तघ्नश्च महाबलः सूर्यशत्रुश्च निहतो ब्रह्मशत्रुस्तथापरः अत्र मन्दोदरी नाम भार्या सहस्रेण साग्रेण परिवारिता ये तत्तु दृश्यते तीर्थं समुद्रस्य वरानने यत्र सागरमुत्तीर्यताम् रात्रिमुषिता वयम् एष सेतुर्मया बद्धः सागरे लवणार्णवे तव हेतोर्विशालाक्षिणलसेतुः सुदुष्करः पश्य सागरमक्षोभ्यम् वैदेहि वरुणालयम् अपारमिव गर्जन्तम् शङ्खशुक्तिसमाकुलम् हिरण्यनाभम् शैलेन्द्रम् काञ्चनम् पश्य मैथिली विश्रमार्थम् हनुमतो भित्त्वा सागरमुत्थितम् एतत् कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् अत्र पूर्वम् महादेवः प्रसादमकरोद्विभुः एतत्तु दृश्यते तीर्थम् सागरस्य महात्मनः सेतुबन्ध इति त्रैलोक्येन च पूजितम् एतत्पवित्रम् परमम् महापातकनाशनम् अत्र राक्षस राजोऽयमाजगामविभीषणः एषा सा दृश्यते सीते किष्किंधाचित्रकानना चित्रकानना सुग्रीवस्य पुरी रम्या यत्र वालीमया हतः अथ दृष्ट्वा सीता किष्किन्धाम् वालि पालिता अब्रवीत्प्रश्रितम् वाक्यम् रामम् प्रणयसाध्वसा सुग्रीवप्रियभार्याभिस्तारा प्रमुखतो नृपा अन्येशाम् वानरेन्द्राणाम् स्त्रीभिः परिवृता ह्यहम् गन्तुमिच्छे सः अयोध्याम् राजधानीम् त्वया सह एवमुक्तोऽथ वैदेह्या राघवः प्रत्युवाच ताम् एवमस्त्विति प्राप्य संस्थाप्य राघवः विमानं प्रेक्ष्य सुग्रीवं वाक्यमे वाक्यमेतदुवाचः ब्रूहि वानरशार्दूल सर्वान् वानरपुङ्गवान् स्त्रीभिः परिवृताः सर्वे ह्ययोध्याम्याम् तु सीतया तथा सह महाबला अभित्वरय सुग्रीव गच्छाम प्लवगाधिपा सुग्रीवो रामेणामि वाणराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः प्रविश्यान्तः पुरम् शीघ्रम् तारामुद्वीक्ष्य सोऽब्रवीत् प्रिये त्वम् सह नारीभिर्वाणराणाम् महात्मनाम् राघवेणाभ्यनुज्ञाता मैथिली प्रियकाम्यया त्वरत्वमभिगच्छामो गृह्य वानरयोषितः अयोध्याम् दर्शयिष्यामः सर्वा दशरथस्त्रियः सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना आहूय चाब्रवीत् सर्वा वानराणाम् तु योषितः सुग्रीवेणाभ्यनुज्ञाता गन्तुम् वानरैः मम चापि प्रियम् कार्यमयोध्यादर्शनेन प्रवेशम् चैव रामस्य पौरजानपदैः सह विभूतिम् चैव सर्वासाम् स्त्रीणाम् दशरथस्य च चा। तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः नेपथ्यविधिपूर्वम् कृत्वा चापि प्रदक्षिणम् अध्यारोहम् विमानम् तत्सीतादर्शनकाङ्क्षया ताभिः सहोत्थितम् शीघ्रम् विमानम् राघवः दृश्यमूकसमीपे समीपेतु वैदेहीम् पुनरब्रवीत। दृश्यते सौ महान् सीते सविद्युगिवतो यदः दृष्यमूको गिरिवरः काञ्चनैर्धातुभिर्वृतः अत्राहम् वानरेन्द्रेण सुग्रीवेण समागतः समयश्च कृतः सीते वधार्थम् वालिनो एषा सा, सा दृश्यते चित्रकानना त्वया विहीनो यत्राहम् विललापसु दुःखितः अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी अत्र निहतो मया दृश्यते सौजनस्थाने श्रीमान्सीते सीते वनस्पतिः जटायुश्च महातेजास्तव हेतोर्विलासिनी यत्र पक्षिणाम् प्रवरो रश्च निहतो दूषणश्च निपातितः त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः एतत्तदाश्रमपदमस्माकम् वरवर्णिनी पर्णशाला तथा चित्रा शुभदर्शने यत्र त्वम् राक्षसेन्द्रेण रावणेन हृता बलात् गोदावरी रम्या प्रसन्न शुभा अगस्त्यस्याश्रमश्चैव दृश्यते कदलीवृतः दीप्तश्चैवाश्रमो ह्येष सुतीक्ष्णस्य महात्मनः दृश्यते चैव वैदेहि शरभङ्गाश्रमो महान् उपयातः सहस्राक्षो यत्र शक्रः पुरन्दरः अस्मिन् देशे महाकायो विराधो निहतो मया एते ते तापसादेऽपि दृश्यन्ते तनुमध्यमे अत्रिक सूर्य वैश्वानोंम अ दृष्टातापसी धर्मचारिणी असौ सुतनुशेन्द्रश्चिकूट प्रकाशते अकयी पुत्र प्रसादयुनाम दृश्य चित्रकानना भरद्वाजाश्रम श्रीमा दृश्य चैष मैथि इयम् च दृश्यते गङ्गा पुण्या त्रिपथगानदी नाना द्विजगणाकीर्णा सम्प्रपुष्पितकानला शृङ्गवेरपुरम् चैतद्गुहोऽत्र सखा मम एषा सा दृश्यते सीते सरयूर्योपमालिनी एषा सीते राजधानी पितुर्मम अयोध्याम् कुरु वैदेहि प्रणामम् पुनरागता ततस्ते वानराः सर्वे राक्षसाः स विभीषणाः उत्पत्त्योत्पत्य सम्भृष्टास्ताम् पुरीम् ददृशुस्तदा ततस्तु ताम् पाण्डुरहर्म्यमालिनीम् विशालकक्ष्याम् गजबाजिभिर्वृताम् पुरीमपश्यन् प्ररगाः यथामरावती शे श्रीमद्राणे वाक्युकांडे तयश्धतम सर्ग